नमस् सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्ध्ये भवताम् सर्वेषां स्वागतम् अद्य एकं श्लोकं श्रावयामि सहस्रशीरपुरुषः सहस्राक्षः सहस्रपात् सभूमिं विश्वतो वृत्वा अत्यतिष्ठदशाङ्गुलम् पुरुष एवेदम् सर्वं यद्भूतं यच्च भव्यम् ईशानः यदन्येनादि त्रोहति इति श्लोकद्वयं पुरुषसूक्तात् अयं पुरुषः यः वर्तते सः विराट् वर्तते विशाल् विशालः इति न विराट् विराट् पुरुषः विशालः इति यदा वदामः तदानीं तस्य मापनं शक्यते यस्य मापनं शक्यते तस्य तस्य एव विशालः इति वदामः यदा विशालः पर्वतः तस्य मापनं शक्यते परन्तु परन्तु पुरुषः विशालः नास्ति विराट् अस्ति मनुष्याणां तु एकः मस्तिष्कः वर्तते एकं मन मनः अपि वर्तते तत्र तेन मनसा मनुष्यः किमपि क्रियते परन्तु मनसि सामर्थ्यं वर्तते परमपुरुषस्य विराट्पुरुषस्य मनः तु असीमितं वर्तते परमपुरुषस्य मनसः आधारः नास्ति मनुष्यस्य मनसः आधारः अस्ति मस्तिष्कः मस्तिष्के मनः वर्तते परमपुरुषस्य मनः भूमा मनः इति यद्वयं वदामः तद् मनः अनन्तं वर्तते अनन्तं वर्तते इति कृत्वा तस्य आधारः नास्ति तस्य आधारः मस्तिष्कः नास्ति मनुष्यस्य मनः मनुष्यस्य मनः यद्वर्तते तस्य सीमा वर्तते तस्मिन् तस्यां सीमायां तादृशः तादृशं तादृशमनः कार्यं करोति परमपुरुषस्य मनसि तादृशसीमा नास्ति तत्र तद् अनन्तं वर्तते तत्र सामर्थ्यं बहु अधिकं वर्तते मनुष्यस्य मनुष्यानाम् अपेक्षया परमपुरुषस्य सामर्थ्यस्य सीमा नास्ति यद्यपि आधारः नास्ति तथापि सीमा नास्ति अतः मनुष्यस्य यद् मनः वर्तते तद् मनः परमपुरुषस्य मनसः अधिकार मनसः आधिपत्यं यदस्ति तस्य तस्य पुरतः मनुष्यस्य मनः किमपि नास्ति इत्युक्ते मनुष्यस्य मनः परमपुरुषस्य मनसा सह युद्धं कर्तुं न शक्नोति इत्युक्ते परमपुरुषस्य मनः मनसः आधिपत्यं वर्तते स्वामित्वं वर्तते अतः मनुष्यस्य मनः किमपि कर्तुं न शक्यते तस्य सीमा वर्तते इत्युक्ते ह्यूमन् मैण्ड् केनाट् चालेञ्ज् पुरुषस् मैण्ड् इट्स् इम्पासिबल् वयं जानीमः सृष्टिः तु परमपुरुषस्य मनसि एव वर्तते अतः यत्किमपि वयं चिन्तयामः तत्सर्वं पुरुषेण ज्ञायते एव तस्य तस्य अन्तः एव वयं स्मः अतः यत्किमपि वयं चिन्तयामः तस्मिन् एव वयं चिन्तयामः तस्य अन्ते एव चिन्तयामः अतः तस्मात् किमपि तत्र गूढतया न भवति रहस्यं न तस्य तस्य कृते किमपि रहस्यं न भवति परमपुरुषस्य कृते किमपि रहस्यं न भवति सः सर्वं जानाति स तस्य तस्य तस्य दर्शने सर्वम् सः पुरुषः सर्वं द्रष्टुं शक्नोति यत्किमपि वयं चिन्तयामः तद् ज्ञातुं शक्नोति तस्य बहिः किमपि नास्ति यद् यदि वयं किमपि वयं चिन्तयामः अस्माकं मनसि वयं चिन्तयामः कोऽपि न जानाति केवलम अहं जानामि इति केवलम इति कदापि न भवति यद्वयं चिन्तयामः तत्तु विराट् पुरुषेण ज्ञायते एव यतोहि अस्माकं मनः तु पुरुषस्य अंशः अस्ति अस्माकं मनः तु विराट् विराट् पुरुषस्य मनसः अन्तः वर्तते अतः पुरुषेण यादृशशक्तिः दीयते तस्यां सीमायामेव वयं चिन्तनं कर्तुं शक्नुमः तस्मात् अधिकं नास्ति अतः मनुष्यस्य सामर्थ्यस्य सीमा वर्तते सहस्राक्षः सहस्रपात् अस्माकं तु अस्माकं तु नयने स्तः तत्र तादृश नयने सामर्थ्यं यद् सामर्थ्यं वर्तते तस्यापि सीमा वर्तते इत्युक्ते किञ्चित् दूरपर्यन्तं वयं द्रष्टुं शक्नुमः तावदेव मम पुरतः किञ्चित् अस्ति चेत् अहं द्रष्टुं शक्नोमि परन्तु इदानीम् अहं भारते अस्मि अमेरिकादेशे किं जायमानम् अस्ति तत्र तत्र अहं द्रष्टुं शक्नोमि अथवा दिल्लीनगरे किम् अस्ति इति तद् न शक्नोमि इति कृत्वा अस्माकं तु सीमा वर्तते अस्माकं सामर्थ्यस्य सीमा वर्तते परन्तु परमपुरुषस्य कृते तु किमपि अदृश्यं नास्ति सः सर्वं द्रष्टुं शक्नोति यद् ब यद् भवान् पश्यति अथवा भवती पश्यति तस्य दर्शनसामर्थ्ये एव अन्तः अस्ति तस्य बहिः परमपुरुषस्य बहिः किमपि नास्ति अस्माकं तु तत्र अणुदर्शनशक्तिः वर्तते परमपुरुषस्य भूमादर्शनशक्तिः वर्तते यदा वयं पश्यामः तु तदानीम् अस्माकम् आप्टिक् नर्व्स् इति आप्टिक् नर्व्स् आप्टिक् फ्लूड्स् इत्य एतेषाम् एतयोः सहायेन वयं द्रष्टुं शक्नुमः तस्य दर्शनशक्तेः सामर्थ्यस्य शक्तेः सीमा वर्तते परन्तु परमपुरुषस्य नेत्राणि सर्वत्र सन्ति सः सर्वं द्रष्टुं शक्नोति यद्भवान् पश्यति तदपि सः पश्यति यद्भवान् न पश्यति तदपि सः पश्यति अन्यस्य मनसि किम् अस्ति यदि अन्यस्य मनसि किमपि चित्रमस्ति चेत् तदपि सः द्रष्टुं शक्नोति भवतः मनसि किम् अस्ति तदपि द्रष्टुं शक्नोति चित्रमस्ति चेत् तदपि द्रष्टुं शक्नोति अन्यस्य मनसि किमपि अस्ति चेत् तदपि सः द्रष्टुं शक्नोति अतः सहस्राक्षः तौसण्ड् ऐस् यस् तौसण्ड् ऐस् तौसण्ड् इत्युक्ते एक्साक्टलि तौसण्ड् इति न इत्युक्ते सः सर्वत्र द्रष्टुं शक्नोति इत्यर्थः सहस्रपात् अस्माकं तु विशेषदेशः देशाधारेण कालाधारेण पात्राधेन पात्राधार आधारेण सामर्थ्यं सीमितं वर्तते यदा वयम् एकत्र वयं भवामः तदानीम् अन्यत्र गन्तव्यं चेत् स समयः स्वीक्रियते अथवा वयं पादेन गच्छामः अथवा वाहनेन गच्छामः अस्माकं पादः अस्माकं पादौ सर्वत्र न स्तः अस्माकं यौ तस्य तयोः सामर्थ्य सामर्थ्यस्य सीमा वर्तते यदा अहं पट्नानगरे स्मः तदानीम् अन्यत्र गन्तव्यं चेत् समयः आवश्यकः अस्ति वाहनस्य आवश्यकता अस्ति तदानीं किं कर्तव्यम् इति चेत् तत्र पट्नानगरं त्यक्तव्यं तदनन्तरं दिल्लीनगरपर्यन्तं गन्तव्यं वाहनेन तदानीं दिल्लीनगरं प्राप्तव्यं परन्तु परमपुरुषस्य पादाः ये ते तु सर्वत्र सन्ति सहस्रपात् अर्थात् एकस्मिन्नेव समये सः सर्व सर्वेषु स्थलेषु सः वासं कर्तुं शक्नोति जगति तादृशस्थलं नास्ति यत्र सः नास्ति तस्य पादाः सर्वत्र सन्ति अस्माकं तु लघु लघुपादौ एव स्तः एकस्मिन् स्थले एव वयं भवितुम् अर्ह एकस्मिन् समये एकस्मात् स्थलात् अन्यत्र गन्तव्यं चेत् समयः अपेक्षितः अस्ति वाहनमपेक्षितमस्ति तत्सर्वमस्ति परन्तु परमपुरुषस्य हस्तपादादयः सर्वत्र सन्ति सः सर्वत्र उपस्थितः अस्ति अतः एव सः सर्वव्यापी अस्ति सभूमिं विश्वतो वृत्वा अत्यतिष्ठत्तशाङ्गुलम् इदं जगत् पाञ्चभौतिकं जगत् परमपुरुषात् निर्मितं वर्तते अत्र अत्र जगति सामग्री किम् अस् सामग्री इति चेत् जगतः निर्माणार्थं सामग्री का इति चेत् सामग्री पुरुषः एव पाञ्चभौतिक जगत् यद्वर्तते तद् अतिरिक्त्य अत तद् अतिरिच्य किम् अस्ति अन्यत् किम् अस्ति इति चेत् मनः अस्ति आत्मा अस्ति अस्माकम् अस्माकं मनः यद् मनः वर्तते तत्र तत्र अस्माकं नियन्त्रणं कुत्र भवति नियन्त्रणबिन्दुः कुत्र अस्ति इति चेत् आज्ञाचक्रे वर्तते आज्ञाचक्रे एव अत्र प पञ्चतत्त्वानाम् अस्माकं शरीरे पञ्चतत्त्वानां नियन्त्रणं भवति अस्माकम् आज्ञाचक्रे तत्र बिट्वीन् द ऐब्रोस् सेण्टर् दट् इस् द आज्ञाचक्र तत्र पञ्चतत्त्वानां नियन्त्रणं भवति परन्तु आज्ञाचक्रात् आत्मनः मनसः नियन्त्रणं न भवति आत्मनः नियन्त्रणम् नियन्त्रणार्थम् इतोपि सूक्ष्मं स्थलम् अपेक्षितमस्ति आज्ञाचक्रात् केवलं मनुष्यस्य पञ्चतत्त्वानां नियन्त्रणं भवति तस्मात् उपरि यदा वयं गच्छामः तत्र इत्युक्ते तत्र सहस्रारचक्रचक्रं यद् वर्तते तत्र एव सूक्ष्म सूक्ष्मविषयाणां नियन्त्रणं तत्र भवति तदा तत् इत्युक्ते आज्ञाचक्रात् उपरि अत्यतिष्ठदशाङ्गुलं सः सर्वं द्रष्टुं शक्नोति इति उक्तं सः सर्वत्र वर्तते इति वदामः इदं जगत् तस्य विषयः अस्ति यदा वयं पश्यामः किमपि पश्यामः पुस्तकमस्ति तद्वयं पश्यामः चेत् किं भवति पुस्तकम् अस्माकं विषयः भवति अहं पुस्तकं पश्यामि तर्हि चित्तं पुस्तकस्य आकारं स्वीकरोति तर्हि चित्तम् अस्ति विषयी पुस्तकमस्ति विषयः पुस्तकमस्ति विषयः चित्तमस्ति विषयी तर्हि चित्तस्य विषयी कः इति चेत् अहं तत्वं चित्तस्य विषयी अहं तत्त्वं चित्तं पश्यति चित्तं तत्र विषयः अस्ति अहं तत्त्वस्य पुनः अहं तत्त्वं विषयः अस्ति महत्तत्त्वं विषयी अस्ति पुनः महत्तत्त्वं विषयः अस्ति तस्य विषयी अस्ति जीवात्मा अतः जीवात्मा विषयः परमा परमा विशया अस्ति परमात्मा विषयी अस्ति इति कृत्वा सर्वेषां विषयी कः इति चेत् पुरुषः परमपुरुषः सः एव विषयी परमात्मा कस्यचित् विषयः न भवति सः एव विषये सर्वेषां विषयाणां विषयः अस्य अस्ति अस्मिन् अस्ति इति कः इति चेत् परमपुरुषः सः एव अन्ततो गत्वा परमविषयी अस्ति तस्य तु विषयः बहवः विषयाः सन्ति इदं जगत् अपि विषयः अस्ति यथा उक्तं मनः इद, इदं पाञ्चभौतिकं जगत् यत् अर्तते पाञ्चभौतिकं तत्त्वं यानि सन्ति तस्य तेषां नियन्त्रणं मनसि आज्ञाचक्रात् भवति परन्तु तस्मात् अपि सूक्ष्मविषयाणां नियन्त्रणं तु सहस्रारचक्रे भवति सः तु अत्र यत्किमपि अस्ति जगति तत्सर्वं सः आवृणोति सः आवृणोति इतोपि सूक्ष्मविषयाणां नियन्त्रणं तु सहस्रारचक्रे इत्युक्ते आज्ञाचक्रात् उपरि सहस्रारचक्रे भवति सः भूमिं स्वभूमिं विश्वतो गत्वा अत्यतिष्ठदशाङ्गुलम् इत्युक्ते सः पुरुषः सर्वं वेद यच्च भूतं यच्च भव्यं सः सर्वं जानाति पुरुषः इत्युक्ते पुरुषः इत्युक्ते कः इति चेत् पुरे शेते यः सः पुरुषः पुरे शेते इत्युक्ते देहपुरे यः शेते देहनगरी नगरी या वर्तते तस्यां यः शेते सः अस्ति पुरुषः अस्माकं देहेषु अन्ते यः शयनं करोति यः वासं करोति सः अस्ति पुरुषः सः ये वेदम, सः सर्वं जानाति सर्वं जानाति किमपि नास्ति यत् सः न जानाति सप् इत्युक्ते सर्वं सर्वं जानाति यद्भूतं यत् च भव्यं यत् इत्युक्ते यत् पूर्वं जातं यत् अग्रे भविष्यति सर्वं सः जानाति अतीतकालस्य ज्ञानम् अस्ति भविष्यत्कालस्य ज्ञानम् अस्ति तत्र अतीतकालस्य ज्ञानं भविष्यत्कालस्य ज्ञानम् इति वयं वदामः चेत् वर्तमका वर्तमानकालस्य ज्ञानमपि अस्ति वर्तमानकालः इति किमपि नास्ति वस्तुतः भूतकालस्य भविष्यत्कालस्य सर्वस्य ज्ञानमस्ति वस्तुतः दर्शनशास्त्रे वर्तमानकालः इति नास्ति सा इत्युक्ते भूतकालः अस्ति अथवा भविष्यत्कालः अस्ति यद् पूर्वस्य विषये पूर्वं यद् तस्य विषये अथवा अग्रे यद्भविष्यति तस्य विषये यदा वद वयं सरलतया स्मर्तुं शक्नुमः शक्नुमः तदानीं तदेव वयं वदामः वर्तमानकालः इति यदा द्वयोः मध्ये सम्भाषणं जायमानमस्ति अस्ति एक एकः अस्ति रामः सः शृणोति सः शृणोति चेत् तदानीं तत्तु भूतकाले भवति यदा श्यामः वदति तदानिम तत्तु भविष्यत्काले भवति रामस्य कृते इति कृत्वा अत्र वर्तमानकालः इति नास्ति परन्तु परमपरमपुरुषस्य परमपुरुषस्य विषये इत्युक्ते वयं तु भूतं भव्यं यत् सर्वं न ज्ञातुं शक्नुमः भूतकालस्य विषये अपि किञ्चित् कालपर्यन्तमेव वयं ज्ञातुं शक्नुमः सर्वं ज्ञातुं शक्नुमः इति नास्ति भविष्यत्कालस्य विषये अपि वयं सर्वं ज्ञातुं शक्नुमः इति नास्ति अत्र सर्व सः सर्वं जानाति इति यदा वयं वदामः सर्व इति शब्दस्य कः अर्थः सर्व, सर्व इत्युक्ते वयं जानीमः एव्रिथिङ्ग् इत्यर्थे अस्ति सर्व इति वदामः चेत् अत्र स र व इति विभागः स इत्युक्ते सात्विकतत्त्वं सात्विकतत्त्वं र इत्युक्ते ऊर्जा एनर्जि व इत्युक्ते वोण्स् धर्मः इत्यर्थः सर्वस्य यदा वयं पश्यामः सर्वस्य उत्पत्तिः सात्विक सात्विकतत्त्वात् अभवत् सृष्टिचक्रे यदा वयं पश्यामः तत्र प्रथमतया सत्त्वगुणस्य प्रभाव प्रभावात् एव महत्तत्वं निर्मितमस्ति इति कृत्वा ततः आरभ्य एव सृष्टिः जायते तर्हि सर्वस्य मूलमस्ति सत्त्वगुणः सत्त्व सत्त्वतत्त्वमेव सर्वस्य मूलं जगतः मूलं तत्त्वतत्वं सत्त्वतत्त्वस्य सत्त्वतत्त्वमपि पुरुषात् एव तत्र आविर्भूतं पुरुषप्रकृत्योः मेलनेन आविर्भूतं यद्यपि प्रकृतौ तु गुणाः सन्ति साम्यावस्थायां भवन्ति यदा पुरुषः पुरुषेण अनुमतिः अनुमतिः दीयते तदानीं सत्त्वगुणस्य प्राधान्येन जगत् निर्मितं वर्तते तर्हि स इत्यनेन सत्त्वगुणः गुणः र इत्युक्ते ऊर्जा सर्वस्य नियन्त्रणं शक्तिः सर्वस्य नियन्त्रणं र इत्यनेन भवति र इत्यनेन भवति व इत्युक्ते धर्मः सर्वस्य स्वस्य स्वस्य धर्मः भवति मनुष्यस्य धर्मः वर्तते पशुपक्षीणां स्वस्य स्वस्य धर्मः अस्ति तर्हि सर्वस्य नियन्त्रणं सर्व इति त्रयः वर्णाः सन्ति तैः सर्वस्य नियन्त्रणं भवति सः कः सः सः अस्ति पुरुषः सः सर्वं जानाति उतामृत उतामृतत्वस्य ईशानः यदन्ये यदन्येनादि अधिरोहति इत्युक्ते उत इत्युक्ते अत्र अधोभागे यद्वर्तते तत्र स्थूल स्थूलातिस्थूल स्थूलातिस्थूल जगत् इत्युक्ते तत्र यथा वयं वदामः नरकः इति वयं वदामः खलु नरकः नरकः इति, इति वस्तुतः स्थलं नास्ति स्वर्गः इत्यपि स्थलं नास्ति वस्तुतः मानसिक मानसिक अवस्था वर्तते परमपुरुषः स्वामी अस्ति स्वर्गस्यापि स्वामी अस्ति नरकस्यापि स्वामी अस्ति स्वर्गः इत्युक्ते सूक्ष्मा इति सूक्ष्मं सूक्ष्म सूक्ष्मं सूक्ष्मविषयः स्वर्गः स्थूलविषयः नरकः सः तु स्वामी अस्ति स्थूलस्यापि स्वामी सूक्ष्मस्यापि स्वामी यदा वयं वदामः पुरुषः पापी इति वयं वदामः जनाः वदन्ति पापी यः पापी अस्ति सः नरके गच्छति इति वस्तुतः नरकः इत्युक्ते मानसिक अवस्था इति उक्तं तर्हि य या, यः पापी अस्ति तत्रापि तस्य देहे अपि परमपुरुषः वर्तते अतः परमपुरुषः एव स्वामी नरकस्य अपि स्वामी सः एव यदा यदा कोऽपि नरके अस्ति मानसिक अवस्थायां नरके अस्ति तदानीं सः अपि सः एकाकी नास्ति तदानीमपि पुरुषः तत्र वर्तते सर्वदा सः वर्तते इत्युक्ते यः यः कोऽपि पापी इति वदति चेदपि तत्रापि निराशा इति विषयः नास्ति तत्रापि आशा वर्तते यतोहि तत्रापि परमपुरुषः अस्ति यतोहि तत् सः अपि परमपुरुषस्य एव पुत्रः अथवा पुत्री अस्ति खलु नरकस्य स्वामी अपि परमपुरुषः स्वर्गस्य स्वामी अपि परमपुरुषः अस्माकं सर्वेषां स्वामी परमपुरुषः वर्तते परमपुरुषस्य स्वामी कश्चन वर्तते वा इति प्रश्नः परमपुरुषस्य स्वामी कश्चन वर्तते वा इत्युक्ते परमपुरुषस्य अपि नियन्त्रणं केनचित् क्रियते वा इति चेत् न परमपुरुषस्य नियन्त्रणं केनापि न क्रियते मया उक्तं सः एव अन्ततो गत्वा विषयी अस्ति सर्वेषां विषयाणां सह विषयी अस्ति सः एव स्वामी अस्ति सर्वस्य सर्वस्य स्वामी अस्ति तस्य स्वामी नास्ति सः एव स्वामि स्वा, तस्यैव आधिपत्यं वर्तते सः एव स्वामित्वं तस्य एव स्वामित्वं वर्तते स एव जगतः नियन्त्रणं करोति सर्वस्य नियन्त्रणं करोति तस्य अधीने ईश्वराधीने वयं स्मः ईश्वराधीने वयं स्मः अतः यः पुरुषः बुद्धिमान् वर्तते सः एतद् अवगच्छति इमं विषयम् अवगच्छति अवगम्य सः तेन सह तेन सह सः भक्ति भक् भक्तिः सः वर्धते तस्मिन् तस्मिन् मनुष्ये परमपुरुषं प्रति प्रीतिभावः भक्तिभावः वर्तते यः बुद्धिमान् पुरुषः अस्ति सः एतत् जानाति यत् परमपुरुषस्य स्वामी नास्ति सः एव अन्ततो गत्वा सर्वस्य स्वामी वर्तते सः एव सर्वस्य नियन्त्रणं करोति इति कृत्वा सः भक्तिभावं सः साधकः यः अस्ति तस्य अन्तश्चक्षुः उद्घाटितं भवति तर्हि सः परमपुरुषेण सह प्रीतिभावेन वर्तते भक्तिः वर्धते अन्ततो गत्वा भक्तिः एव सर्वं सर्वमस्ति इत्युक्ते मोक्षसामग्र्यां भक्तिः एव गरीयसी इति शङ्कराचार्येण अपि यद्यपि शङ्कराचार्यः ज्ञानस्य ज्ञानमार्गः इति वदामः ज्ञानमार्गस्य अनुयायी वर्तते तथापि तेनापि उक्तं मोक्षसामग्र्यां भक्तिः एव गरी अस्ति एव श्रेष्ठा वर्तते मोक्षसामग्र्यां तर्हि भक्तिः नास्ति तर्हि हृदि भक्तिः नास्ति चेत् किमपि न भवति किमपि अग्रगतिः एव न भवति केवलं ज्ञानं वर्धते चेत् किं भवति इति चेत् अहङ्कारः एव वर्तते अहमेव महान् इति भावः जायते इत्युक्ते तदर्थमेव वयं द्रष्टुं शक्नुमः ये ये ज्ञानमार्गस्य अनुयायिनः सन्ति तेषु सामान्यतया वयं पश्यामः चेत् तेषां तेषु अहङ्कारः वर्तते अहं ज्ञानी अहं सर्वं जानामि इति अहङ्कारः वर्तते तर्हि ज्ञानमार्गेण केवलं ज्ञानमार्गेण तत्र परमपुरुषस्य प्राप्तिः न भवति अधोगतिः एव भवति यतोहि अहङ्कारः वर्धते ते वर्धते चेत् अस्माकं लघु लघु अहङ्कारस्य वर्धनं छोटा मैपन् इति तस्य वर्धनं भवति चेत् परमपुरुषेण सह ऐक्यं कदापि न भवितुम् अर्हति तर्हि अत्र पुरुषसूक्तस्य श्लोकात् वयं किम् अवगन्तुं शक्नुमः इति चेत् इत्युक्ते पुरुषः पुरुषः यः वर्तते तस्य अनन्तकल्याणगुणाः वर्तन्ते पुरुषस्य अनन्तकल्याणगुणाः वर्तन्ते सः सर्वदा अस्माकं सः कल्याणकारी अस्ति सर्वजनकल्याणकारी अस्ति सर्वेषां कल्याणस्य विषये सः चिन्तयति तदर्थं तत्र जगति नियमाः सन्ति नियमानाम् पालनं करणीयम् इत्युक्ते न केवलं नियमः नद्याः विषये अथवा पर्वतस्य विषये अथवा सूर्यस्य विषये चन्द्रस्य विषये नक्षत्राणां विषये इति एव नास्ति मनुष्याणां कृते अपि नियमाः सन्ति तादृशनियमाः के इति चेत् अत्र योगनिष्ठजीवनम् इति एव यद्व वदामः तत्र नियन्त्रणम् अपेक्षितमस्ति यथा पूर्वमपि अस्माभिः चर्चितं बहुवारं नियन्त्रणमपेक्षितमस्ति अस्माकं व्यवहारे नियन्त्रणम् अस् अपेक्षितम् आहारे नियन्त्रणमपेक्षितं मनसि नियन्त्रणमपेक्षितं सर्वत्र नियन्त्रणम् अपेक्षितं यतोहि अस्माकं सर्वेषां नियन्त्रकः कः इति चेत् पुरुषः एव पुरुषः एव सः सर्वत्र अस्ति सः सर्वं द्रष्टुं शक्नोति सः सर्वं जानाति अतः कोऽपि यदि चिन्तयति ओ अहं सात्विक आहारस्य ग्रहणं करोमि एकस्मिन् दिने अहं किमपि अन्यत् खादामि कोऽपि न जानाति इति चिन्तयति चेत् तत्तु तस्य मूर्खता एव यतोहि परमपुरुषात् किमपि गूढतया न रहस्यं न किमपि तत्र सः सर्वं जानाति सर्वत्र अस्ति सर्वव्यापी अस्ति सर्वशक्तिमान् अस्ति इति अत्र श्लोकात् वयम् अवगन्तुं श्लोकद्वयात् अवगन्तुं शक्नुमः अत्र कोऽपि संशयः अस्ति वा अस्तु तर्हि अत्र ब्रह्माण्डेन परमपुरुषेण सह मम सम्बन्धः कः इति विषयः अनुवर्तते तत्र अस्माभिः सृष्टिचक्रस्य विषये सम्यक्तया ज्ञातं वयं जानीमः तस्य विषये पुनः न वदामि अत्र वयम् उक्तवन्तः यत् सृष्टिचक्रे दशवादनात् द्वादशवादनपर्यन्तं गमनम् एव अस्माकं लक्ष्यम् अस्ति तर्हि अत्र जगति व यदा वयं व्यवहारं कुर्मः कार्याणि कुर्मः तदानीं प्रत्येकं कर्मणः प्रतिक्रिया तु अवश्यं भवति प्रतिक्रिया भवति प्रतिक्रियायाः फलं फलम् अस्माभिः भोक्तव्यम् एव तस्मात् मुक्तिः न शक्यते यावत्पर्यन्तं योगनिष्ठजीवने वयं न प्रवे प्रविशामः तर्हि इदानीम् अत्र कर्मफलानि कर्मफलानि यानि सन्ति तस्य तस्य तेषां भोगः अस्माभिः करणीयः अस्ति अस्मिन् जन्मनि अथवा अग्रिमे जन्मनि यदा मनुष्याणां मरणं जायते तदानीं केवलं पाञ्चभौतिकशरीरस्य मरणं जायते न तु मनसः यदा मरणं जायते तदानीं तत्र मनः अपि च आत्मा शरीरात् शरीरात् बहिः गच्छति मनः अथवा आत्मा मनः अपि च आत्मा शरीरात् बहिः गच्छति मनसः आत्मनः च मरणं न जायते तर्हि यावत्पर्यन्तं मनः शरीरे वर्तते मनः वस्तु वर्तते परन्तु तस्य स्थूल आधारः वर्तते मस्तिष्कः मस्तिष्कः मस्तिष्कः सम्यक् कार्यं न करोति चेत् मनः अपि सम्यक् कार्यं न करोति अतः एव यदा मनः शरीरात् बहिः गच्छति मरण मरणावस्थायां तदानीं बहिः मनः किमपि कर्तुं न शक्नोति मनः चिन्तयितुं न शक्नोति कर्मफलस्य भोगः अपि न शक्यते किमपि न शक्यते यावत्पर्यन्तं नूतनशरीरं न लभ्यते नूतनमस्तिष्कः न लभ्यते तावत्पर्यन्तं मनः किमपि कर्तुं न शक्यते मनसः मस्तिष्कस्य च गाढसम्बन्धः वर्तते मनः मस्तिष्कं विना न भवितुम् अर्हति इत्युक्ते तस्य कार्यं न भवितुम् अर्हति किमपि कार्यं न भवितुम् अर्हति मस्तिष्कः सम्यक् न कार्यं करोति चेत् मनः अपि सम्यक् न कार्यं करोति यदा मनुष्यः मूर्छावस्थायाम् अस्ति अथवा सः मूर्छितः विज्ञानरीत्या सः ति तदानीं तस्य मस्तिष्कः किञ्चित् कालपर्यन्तं कार्यं न करोति तावत् कालपर्यन्तं मनः अपि कार्यं न करोति यतोहि मनसः आधारः मस्तिष्कः मनः तदानीं कार्यं कर्तुं समर्थं न भवति मूर्छावस्थायां कार्यं कर्तुं न समर्थं भवति यदा मरण मरणावस्थां प्राप्नुमः तदानीमपि मनः कार्यं न कर्तुं शक्नोति यतोहि तत् मस्तिष्कः मस्तिष्कस्य मरणमपि जायते तदानीं मस्तिष्कः अपि मृतः भवति तदानीं मनः कार्यं कर्तुं न शक्नोति मनः शरीरं त्यजति यावत्पर्यन्तं वयं जीविताः भवामः तावत्पर्यन्तं मनः शरीरे भवति मनः मस्तिष्कस्य आधारं स्वीकृत्य सम्यक्तया कार्यं करोति यावत्पर्यन्तं मनः सम्यक्तया कार्यं करोति मस्तिष्के तावत्पर्यन्तम् अस्माकम् अनुभवः भवति कर्मफलानाम् अनुभवः भवति प्रतिदिनं वयं अनुभवामः खलु तत्र पुण्यकर्म पुण्यकर्म कृतं वा पापकर्म कृतं वा तस्य फलस्य भोगः तु भवति एव अस्मिन् जन्मनि वा अग्रिमे जन्मनि वा इति तावत्पर्यन्तम् अस्माभिः पूर्वं प्राप्तमासीत् इदानीं मरणावस्थां प्राप् प्राप्यते चेत् कथं मनः शरीरं त्यजति तस्य विषये अग्रे दत्तमस्ति तद् इदानीं वयं पठामः किं सरले पठितुमिच्छति वा यद्यपि मृत्योः अनन्तरं मनः शरीरं तस्य भौतिकम् आधारं मस्तिष्कं मस्तिषकम् अपि त्यजति तथापि मनः मृत्यु क्षण पर्यत कि कर्म कुर कार मनसा कर्मण प्रतिक्रिया कर्मफला अव्या वस्तु एक प्रतिक्रिया हा मनसा अव्या मस्तिष्क बिना एक प्रतिक्रिया अवीत असमर्थयाः कारणात् एव मनः अनन् असमर्थतायाः असमर्थ असमर्था असमर्थाय असमर्थाय तत्र असमर्थतायाः कारणात् कारणात् एव मनः अनन्तरजन्मनि नूतन शरीरे आश्रय गृहते जीवात्म उपरी प्रकृते गुणात्मक प्रभाव परिमाणन एवं मन अस्तत्व अस्तिवनोति अस्ति जीवात्मा अभी प्रकृति चिभक् स्तार जीवात्मा अभी मनसा सह शरीरे आश्रय स्वीक अर्थात् मनः जीवात्मा च उभौ अपि पुनर्जन्म पूर्वजन्मनि कृतानां कर्मणाम् प्रतिक्रियाणाम् अनुभवार्थम् ताभ्याम् अन्यजन्म ग्रहीतव्यम् भवति यदा कश्चन एकदा जननम् जनमम् अजन् तदा मृत्योः सम्मुखीकरणम् अपि अवश्यम् भवति इति दृश्यते मृत्योः परं पुनर्जन्म अपि अपरिहारतेन परिवर्तनं निरन्तरं भवति यावत् स्थूलात् सूक्ष्मपर्यन्तं भूमा चैतन्याः चेतन, सह अन्तिमचेतनया भूमाचेतनया सह भूमा अन्तिमसंयोगपर्यन्तं जीवात्मनः यात्रा न समाप्यते अनन्तकालं यावत् जीवात्मना एता यात्रा निरन्तरं कर्तव्या भवेत् जीवात्मा पुरातनशरीराणां परित्यागं कृत्वा नूतनशरीरे शरीरेषु शरी आश्रयं गृहीयात् mm -hmm. इदानीम् इति शरीर शरीरमनः तेषां यत् संयोगः अस्ति पुनः मनः यत् अस्ति सूक्ष्मशरीर तस्य जीवात्मा सह संयोगजत् अस्ति तेषां यदि यावत्पर्यन्तं भौतिकशरीरम् अस्ति तावत्पर्यन्तं मनः जीवात्मना जीवात्मना तस्मिन् तिष्ठति यदा मनः जीवात्मना सह भौतिकशरीरात् पृथक् पृथक् भूत्वा अपगच्छति तत् भौतिक शरीरस्य वयम इति वदामः यदि भौतिकशरीरमृतः भवति तदा तदनन्तरं यत् सूक्ष्मशरीरम् अस्ति तत् तस् तस्य सह ये कर्माणि भौतिकशरीरेण सह अभवत् तेषां यत् प्रतिक्रिया कर्मफल यत् अस्ति मन मनसा गच्छति तत् कर्मफलानि ये सन्ति तेषां ये वयम् इति सञ्चितकर्म वदामः यदा तस्य को अंशभाग यथा गतवर्गे भवति उक्तवती अंशभाग यत् अस्ति तस्य यत् प्रारब्धकर्म इति वयं तत् तस्य कृते आवश्यकता भवति तत् नूतनजन्म भवति तस्य यावत्पर्यन्तं इति कर्म यावत कर्मफल कर्म इति चक्र प्रचलति तावत्पर्यन्तं नूतनशरीर नूतन, नूतन मनः एकमेव अस्ति कर्म आ, आ, आ, प्रचलति कर्मफलानि आगच्छति पुनः नूतनकर्माणि भवन्ति नूतनकर्मफलानि चक्र स्थूलसूक्ष्मशरीर च इति चन्मरणस्य चक, चक्र प्रचलत् प्रचलन् भवति यदि कदा तस्य स्थगनं भवति यदा मन भूम भूमचैतन्यस्य संयोगः भवति तस्य संयोग मनः विलीनं भवति भूमचैतन्यं चैतन्य मध्ये तु यदि इति अन्तिम यावत्पर्यन्तम् इति अन्तिमविलीनं न भवति तावत्पर्यन्तं पुनः पुनः पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् इति भवति तदनन्तरं किमपि वाक्यं विश्रमस्ति हा हा सम्यक् भगिनि समीचीनम् तत्र एकेवलं स्पष्टीकरणार्थं वदति अस्तितत्वं न अस्तित्वम् इति अस्ति खलु अस्ति तत्र अस्तितत्त्वं न मनः अस्तित्वं प्राप्नोति इति वाक्यं तत्र अस्ति अस्तित्वं न तु अस्ति तत्त्वम् अस्तु ओके ओके अस्तु हा तर्हि अत्र किम् अस्मिन् अस्मिन् परिचय एतत् एतत् पुनरपि जननं मरणम् इति अस्ति यावत्पर्यन्तं भूमचैतन्यस्य अन्तिमसंयोगेन भवति तावत् परे यावत्पर्यन्तं बलानि सन्ति तावत्पर्यन्तं पुनर्जन्म तु भवति इत्युक्ते अत्र किम् उक्तम् इति चेत् यता यतः पूर्वम् उक्तं मनसः मरणं नास्ति यदा शरीरस्य मरणं जायते तदानीं पञ्चभौतिकतत्त्वानां शरीरात् पाञ्चभौतिकतत्त्वानि तत्तत् मूलतत्वे तेषां योगः भवति तर्हि शरीरात् मनः निर्गच्छति आत्मा अपि निर्गच्छति मनसः मरणं न शक्यते तदानीं यदा शरीरस्य मरणं भवति तदानीं मनसः मरणं न शक्यते यतोहि तत्र कर्मफलानि सन्ति खलु कर्मफलानि तु मनसि एव भवन्ति अस्माकं प्रत्येकं कर्म अन्तिमक्षणपर्यन्तं मरणपर्यन्तं तेषां प्रतिक्रियाः भवन्ति तर्हि एते एते एताः प्रतिक्रियाः याः याः सन्ति तासाम् अनुभवः तु मनसि एव भवति तासाम् अनुभवः अन्यत्र भवितुं नार्हति तासाम् अनुभवः शरीरे न भवितुम् अर्हति शरीरं कर्ता नास्ति कर्मणः कर्ता शरीरं नास्ति कर्मणः कर्ता अस्ति मनः तर्हि केन प्रतिक्रिया अनुभोक्तव्या इति चेत् मनसा एव प्रतिक्रिया अनुभोक्तव्या इति कृत्वा तत्र पुनर्जन्म इति विषयः अस्ति यदा पुनर्जन्म भवति नूतनशरीरं नूतन नूतनशरीरे मस्तिष्कः भवति सः तादृशमनसः आधारः भवति यदा आधारः भवति तदानीमेव प्रतिक्रियाणाम् अनुभवः भवति तत्र कर्मफलानां भोगः तदानीमेव भवति यावत्पर्यन्तं मनः मनः मनसा नूतनशरीरं न प्राप्तं तावत्पर्यन्तं कर्मफलानाम् अनुभवः न अर्हति मनः यदा प्रकृति प्रकृत्या इत्युक्ते निर्मितं यदिदानीं अनेन मनसा इदं शरीरं गृहीतव्यम् इति निर्मि निर्णीतं तदानीं शरीरं नूतनशरीरं नूतनशरीरं धरति तदानीं मनः नूतनशरीरं धरति तदानीं किं भवति इति चेत् मनसः आधारः तस्मिन् शरीरे यः मस्तिष्कः वर्तते सः मस्तिष्कः मनसः आधारः वर्तते तर्हि मनः सर्वदा जीवात्मना सह सम्बद्धः वर् सम्बद्धं वर्तते नु? जीवात्मा यः साक्षिसत्ता वर्तते तेन सह मनः सम्बद्धं वर्तते तर्हि यावत्पर्यन्तम् अभुक्तप्रतिक्रियाः सन्ति तावत्पर्यन्तं किं भवति इति चेत् नूतनजन्म अवश्यं भवति नूतनशरीरम् अवश्यं लभ्यते यदा तत्र मरणसमये इद इदानीं कोऽपि साधकः वर्तते मरणस मरणावस्थायां तस्य कर्मफलानि न सन्ति कर्मफलानि सः दग्धावस्थायां दग्धबीजावस्थायाम् अस्ति इति चिन्तयतु यदि ते तस्य सर्वाणि कर्मफलानि नष्टानि तेन नूतनकर्मफलानि न कृतानि दग्धबीजावस्थायां सः अस्ति तदानीं तत्र किं भवति इति चेत् तस्य नूतनकर्माणि न कर्मफलानि न सन्ति इति कृत्वा तदानीं तस्य मरणसमये तस्य मनः भुआ मनसा सह ईक्य अथवा तन विली परमुषे विलीन भूत जीवात्मा परक्यंती मुक्ति अथवा मोक्षला न सरु सात मनुष्या कर्मफला सर् तर पुनर्जन्म तो अवश्यन जन्म पुनः मरण जन्म पुनः मरण रीतिया तत्र तत्र भवति यदि तत्र तत्र पशुरूपेण जीवनम् आसीत् तदानीमपि पुनर्जन्म भवति तस्य तस्य अग्रगतिः भवति पशुरूपेण अस्ति चेत् तस्य अग्रगतिः भवति सस्यरूपेण अस्ति चेत् तस्य अग्रगतिः भवति एवं रीत्या सृष्टिचक्रचक्रं सर्वदा प्रवर्तते इति अत्र विषयः अस्ति तर्हि किञ्चित् अग्रे गच्छामः भगिनी श्लोकं स्मरामि जानामि पुनरपि जननं पुनरपि मरणं पुनरपि जठरे जननीशयनं हि संसारे बहुदुस्तारे कृप्यापाये पाहि मुरारे भजगोविन्दं भजगोविन्दं गोविन्द mm. जम्बूकमध्ये सम्यक् सम्यक् समीचीनम् अस्तु इदानीं किं भगिनि तत्र एकः संशयः अस्ति भूमचैतन्येन सह ऐक्यं प्राप्नोति इत्युक्ते निर्गुणपुरुषेण सह वा सो इत्युक्ते तत्र मुक्तिः वा मोक्षः वा इति विषयः अस्ति इत्युक्ते तत्र मनः भूममनसा सह ऐक्यं प्राप्नोति चेत् मुक्तिः भवति यदा मनः मर मरणकाले यदा मनः विलीनं भवति पुरुषे विलीनं भवति इट् विल् डिसाल्ड् द पुरुष तदानीं जीवात्मा परमात्मना सह ऐक्यं प्राप्नोति तदानीं मोक्षः इति वयं वदामः तदानीं तु निर्गुणपुरुषे पुरुषेण ऐक्यम् जीवात्मा पुरुषेण ऐक्यं यदा मुक्तिः इति वयं वदामः सगुणब्रह्मणः भूमा मनसा सह ऐक्यम् उभयत्र पुनर्जन्म न भवति मुक्तिः वा भवतु मोक्षः वा भवतु पुनर्जन्म तु न भवति यदा मु इति यदा वयं वदामः यद्यपि अस्माकं मनः भूमामनसा सह ऐक्यं प्राप्नोति अस्माकं मनः भूमामनसा सह ऐक्यं प्राप्नोति इति कृत्वा तत्र अस्माकं पुनर्जन्म न भवति परन्तु तत्र यद्यपि यदा भूमा मनसा सह ऐक्यं प्राप्नोति तदानीं पुनः तत्र सृष्टिचक्रं तु प्रवर्तते इट् विल् जस्ट् गेट् रीसैकल्ड् इन् द सृष्टिचक्र सो दट् दट् पर्टिक्युलर् मैण्ड् विल् नाट् बि डेर् दट् विल् नाट् बि लिङ्क् टु द जीवात्मा बट् इट् विल् बि पार्ट् आफ़् द सृष्टिचक्र अण्ड् द सृष्टि विल् प्रोसीड् फर्दर् सामग्री गतसप्ताहे उक्तवती सगुणब्रह्म स यत् मुक्ति इति सविकल्पसमाधिः निर्गुणब्रह्म स विलीनं यथा इदानीम् उक्तवती इति मोक्ष इति निर्विकल्पसमाधिः इति तद् समाधिः इति तु साधनावस्थायाम् अस्ति यदा साधना क्रियते तदानीं समाधिः यदा जायते तदानीं तत्र स्वविकल्पसमाधिः निर्विकल्पसमाधिः इति द्वयं वर्तते यदा तत्र निर्गुणब्रह्मणि ऐक्यं भवति तदानीं तत्र निर्विकल्पसमाधिः इति वयं वदामः अस्तु तत् अवस्थायां परन्तु अवस्थायाम् इत्युक्ते सर्वदा वयं साधनां कुर्मः इति नास्ति खलु परन्तु यः साधकः बहु अग्रे वर्धितः वर्धितः अस्ति सः मरणावस्थायां तस्य सामर्थ्यं तादृशसामर्थ्यं भवति यद् सः यदि सः भूममनसा सह तस्य मनः ऐक्यं प्राप्नोति चेत् तत्र मुक्तिः इति वयं वदामः यदा तादृशसाधकस्य मनः परमपुरुषे निर्गुणपुरुषे निर्गुणसमुद्रे विलीनम् अस्ति तदानीं जीवात्मा परमात्मन सह ऐक्यं भवति तत्तु पर्मनण्ट् अस्ति अस्माकं लक्ष्यं तु मोक्षः एव अस्माकं लक्ष्यं मुक्तिः इति लक्ष्यं नास्ति परन्तु मुक्तिः इति सामान्यविषयः नास्ति मुक्तिः अपि बहु उच्चविषयः अस्ति Mm -hmm. it is very high, elevated thing it's not a small thing mukti is not a small thing moksha is also not a small thing but the goal is ultimately to get moksha but mukti is also good moksha is also good okay parama purusha yada parama purusha yada parama purushena srishti hi nirmita tadanin tasy okay. lakshyam tu tasy lakshyam kim iti cet pratyekam jivaatma mokshaha प्रत्येकं जीवात्मा मोक्षः प्राप्नुयात् इति एव तस्य लक्ष्यम् आम् अस्तु अस्तु इदानीं सुचित्रा भगिनी, वा किञ्चित् प्रश्नः अस्ति वा कोऽपि संशयः तर्हि इदानीं किं सरिताभगिनी अग्रे पठति वा आं भगिनि नमस्कारः गन्तव्यः इति अवधारणा सर्वथा अशुद्धा न न किञ्चित् वाक्यद्वयं पूर्वमस्ति मृत्योः अनन्तरम् आम् मृत्योः मनः भौतिक आधारस्य मस्तिकस्य अभावात् किमपि कर् मस्तिकस्य मस्तिष्कस्य अभावा किमपि कर्म कर्तुम् असमर्थं भवति मनः स्वस्य पूर्वकर्मणां प्रतिक्रियाणाम् अनुभवाय पुनर्जन्म प्राप्नोति अतः नर्कः स्वर्गः वा यत्र मनुष्यैः मृत्योः अनन्तरं गन्तव्यः इति अवधारणा सर्वथा अशुद्धा अस्ति कश्चन स्वर्गे कश्चन स्वर्गे स्वसत्कर्माणां कारणात् सर्वान् भोगान् अनुभवति अपि च स्वदुष्टकर्माणां कारणात् नरके दुःखं च अनुभवति इति जनाः विश्वसन्ति परन्तु मृत्योः पश्चात् मनः सुखं दुःखं वा अनि सुखं दुःखं च अनुभवितुं न शक्नोति यतोहि यावत् पुनर्जन्मसमये नूतनं मस्तिष्कं न प्राप्नोति तावत् मनः अकार्यात्मकं भवति मृत्योः अनन्तरं स्वर्गलोकस्य नर्कलोकस्य वा धारणा महती सन्दिग्धः काल्पनिकी च वर्तते अन्यः लोकः न वर्तते यत्र स्वर्गः नर्कः वा विद्यते अस्मलोक अस्मर्जन्म प्राप्त स्वर्गसुखा नर्कदुखा चुभवाथं अो अन मन भौतिक शरीर त्यजति मस्ति मस्ति अभाव कि कि भोक्त निक वन यद अभुक्कर्मा ये सी तलो प्राप्त ता, अस्त अतः यूत शरीर नाव तथा ठीक भोक्त न शक्न नर्क स्वर्क तो कलना मत अस्त अस्के सर्वाणी कर्माणि अत्र एव तेषा ते कर्माणां प्रतिक्रियापि अत्र एव भोक्तव्या अस्ति अतः यदा मनः नूतनं शरीरं प्राप्नोति तद, तदा एव तस्य कर्मणां प्रतिक्रियाणाम् अनुभवः भवति अतः यत्म शरीर न प्राप्न की तब भी भोक्त नक्नो अतः पुनर्जन्म्बाव त्रर्क स्वर्ग की तो काम था जन विश्वसंती युकम क सह स्वर्ग गाप कौती सह नर्क ग भ्रम एव अस्त अस्के सर्वेषां uh, कर्माणां फलं भवति इति लिखितमस्ति अन्यत् हा हाँ, सम्याग सम्याग, सम्याग. हा सम्यक् सम्यक् सम्यक् यदा वयं सृष्टिचक्रं दृष्टवन्तः तदानीं तत्र स्वर्गस्य नरकस्य चर्चा अस्माभिः कृता कलो तत्र कुत्रापि स्वर्गः अस्ति नरकः अस्ति इति किमपि न दृष्टम् तर्हि तत्र सृष्टिचक्रे यथा अस्माभिः दृष्टं निर्गुणपुरुषात् प्रकृतेः प्रभावात तत्र सृष्टिः जायते तर्हि तत्र सृष्टिचक्रे स्वर्गस्य नरकस्य विषयः नास्ति विज्ञानरीत्या अपि स्वर्गस्य नरकस्य अङ्गीकारः नास्ति अतः तत्र स्वर्गः नरकः इति किमपि नास्ति तादृशस्थलं नास्ति यद्यपि भिन्नभिन्न तत्र भिन्नभिन्नदेशेषु भिन्नभिन्नमतानुसारं जनाः वदन्ति स्वर्गः अस्ति नरकः इति तथा वस्तुतः नास्ति तर्करीत्या अपि वयं पश्यामः चेत् यदा मनुष्यः मरणं प्राप्नोति तदानीं तस्य पुनर्जन्म भवति तद् मरणसमये तस्य मनः कथमस्ति मन मनसः अवस्था कथमस्ति तदाधारेण तत्र पुनः नूतनशरीरं लभ्यते इति कृत्वा तत्र केवलं मार्गद्वयमेव अस्ति पुनर्जन्म भवति अथवा परमपुरुषेण सह ऐक्यं भवति मार्ग इति मार्गद्वयमेव भवति तद्विहाय अन्यत् किमपि स्थलमस्ति इति नास्ति इत्युक्ते मरणसमरणसमये शरीरात् बहिः मनः गच्छति आत्मा अपि जीवात्मा अपि गच्छति तद् तत् तद, तद, स्वर्गलोके गच्छति नरकलोके गच्छति तत्र गत्वा पुनः नूतनशरीरं प्राप्नोति इति तादृशः तादृशं वक्तुं तत्र तर्कः अपि नास्ति विज्ञानरीत्या अपि नास्ति सृष्टिचक्रे अपि तादृशं किमपि नास्ति तादृशस्थलमेव नास्ति यदा वयं लोके वसामः तदानीं तदा एव अस्माकं कर्मणा कर्मणः आधारेण अस्माकं पूर्वजन्मकर्मणाम् आधारेण अस्माकं मनः स्वर्गावस्थायां भवति अथवा नरकावस्थायां भवति स्वर्गः वा नरकः वा वस्तुतः मनसः अवस्था इदानीं लोके एव जगति एव तदानीं तादृश अनुभवः भवति अस्मिन् लोके यदा वयं मनुष्यरूपेण वसामः तदानीमेव अस्माकं मनसः अवस्था उपरि गच्छति अथवा अधोभागे गच्छति अतः एव लोके केचन जनाः स्वर्गे वसन्ति ये जनाः योगनिश्च जीवने प्रवृत्ताः साधकाः सन्ति ये येषु भक्तिभावः अस्ति येषु परमात्मानं प्रति प्रीतिभावः अस्ति ते तु स्वर्गे भवन्ति आनन्द आनन्दम् अनुभवन्ति ये जनाः अन्ये जनाः ये लौकिकविषयेषु व्यस्ताः भवन्ति ते तु नरके वसन्ति अस्मिन् जन्मनि पुनः अग्रिमजन्मनि अपि एवमेव भवन्ति अतः वस्तुतः नरकः स्वर्गः इति स्थलं नास्ति सृष्टिचक्रे तादृशस्थलं नास्ति ता तस्य आवश्यकता अपि नास्ति अतः तस्य तस्य कृते किमपि कारणं नास्ति येन स्वर्गः अथवा नरकः इति वक्तुं शक्यते एतत् सर्वं काल्पनिकम् अस्ति काल्पनिकस्थलम् अस्ति तत्र कोऽपि त कस्यचित् कस्यचिदपि अनुभवः नास्ति यदा मरणं जायते तदानीं मनः प्रतीक्षां करोति नूतनशरीरं प्राप्तव्यम् इति कृत्वा मनः नूतनशरीरं प्रापणार्थं मनः प्रतीक्षां करोति तर्हि कदा तर तर नूतनशरीरं लभ्यते इति तु वयं वक्तुं न शक्नुमः तस्य तस्य तस्मिन् मनसि अभुक्तप्रतिक्रियाः कथं सन्ति तद् आधारेण तादृश अभुक्तप्रतिक्रियानाम् अनुभवार्थं यादृशशरीरम् अपेक्षितम् अस्ति तादृशशरीरं यावत्पर्यन्तं न लभ्यते तावत्पर्यन्तं मनः प्रतीक्षावस्थायामेव भवति यदा तादृशशरीरं लभ्यते तदानीं तत्र मनः नूतनशरीरं प्राप्नोति अतः मन मनुष्याणां मध्ये एतादृशविचारः यत् नरकः अस्ति स्वर्गः अस्ति इति तत् सम्यक् विचारः नास्ति इति सम्यक्तया अवगन्तव्यम् इत्युक्ते जनानां मध्ये एतादृशभयमपि अस्ति ओ एवं करोमि चेत् अहं नरक नरके गच्छामि इति तादृशविचारः वस्तुतः नरकं नरकः तु अत्र एव लोके एव अस्ति अस्तु तर्हि किं सुचित्रभक्ति पठितुम् इच्छति भगिनी तत्र एकः प्रश्नः अस्ति मनः नूतनशरीरप्राप्तिपर्यन्तम् अपेक्षा करो करोति खलु प्रतीक्षां करोति कुत्र तिष्ठति कुत्र तिष्ठति इति अहं न जाने बहिः गच्छति बहिः अस्ति वा तस्मिन् विषये कुत्रापि विवरणम् अस्ति वा मनसः कुत्र तिष्ठति नूतनशरीर इदानीं पुरातनशरीरं त्यक्त्वा यदा नूतनशरीरस्य प्रतीक्षां कृत्वा भवति तत्र कुत्र भवति इति एतावता मया तादृशं न पठितं परन्तु यावत् अवगतम् इत्युक्ते तत्र परमपुरुषस्य मनसि एव सिष्टि सिष्टिः जायते खलु अतः परमपुरुषस्य बहिः तु न गच्छति तत्र एव तिष्ठति इत्युक्ते जगति एव कुत्रचित् तिष्ठति सूक्ष्मरूपेण तिष्ठति भगिनी वेदेषु पुराणेषु इति चतुर्दश लोकाः वदन्ति लोकेषु कुत्रचित् तिष्ठति भू तपः तपः च कुत्र भूलोकस्य उपरि सप्त लोकादौ भवन्ति आताल पाताल अहं न स्मरामि दद् नामानि इति कृत्वा जगति एव तिष्ठति जगति एव तिष्ठति हिन्दुस्म कुत्रचित् तिष्ठति कुत्र तिष्ठति इति अस्तु इत्युक्ते यद् एतत् एतत् परिदृश्यमानं जगत् यद्वर्तते अपि च ये लोकाः सन्ति यद् वयं शक्नुमः तावदेव अस्ति खलु तत्र एव तत्रैव कुत्रचित् भवेत् इत्युक्ते परमपुरुषस्य चित्ते सृष्टिः जायते तत्रैव कुत्रचित् मनः अपि तिष्ठति प्रतीक्षावस्थायाम् अहम् अहं महोदयं पृच्छामि कुत्रचित् अस्ति वा कुत्रचित् तस्य विवरणम् अस्ति वा किम् अस्ति इति पृच्छामि यावत् अहम् अवगच्छामि तावदुक्तवती इतोपि किमपि अस्ति च चेत् अहं पृच्छामि पृष्ट्वा अग्रे वदामि पुनर्जन्म खलु पुनर्जन्म अपि दर्शयति यत प्रेतः अथवा आत्मा इत्यादयः न सन्ति ये पिशाचाः भवन् ये पिशाचाः भवन्ति न सन्ति यदि भवन्ति यदि पुनर्जन्म तर्कपूर्वकरूपेण स्वीकृतमस्ति तर्हि भूतानां सत्त्वस्य प्रश्नः न उद्भवति कार्यं कर्तुं प्रति कार्यं कर्तुं प्रतिक्रियाम् अनुभवितुं च मनसः असमर्थतायाः कारणात् एव जीवात्मा सह मनः पुनर्जन्म प्राप्नोति एतेन ज्ञायते यत् मनः मृत्योः अनन्तरं पुनर्जन्मपर्यन्तं कामपि अनुभवितुं न अतः मनः स्वस्य शारीरिकम् आधारं मस्तिष्कं सुखं दुःखं च अनुभवितुं न शक्नोति पुनर्जन्म वा भूतसत्त्वं वा स्वीकर्तुं शक्यते ्यते न तु उभयम् एकत्र यतः द्वयोः विरोधाभासत्वं विरोधाभासत्वं तर्कतर्कसङ्गतया पुनर्जन्म अवश्यमेव भवति यतः मनः मस्तिष्कं विना किमपि कार्यं कर्तुं वा परिणामं वा प्रतिक्रियां वा अनुभवितुं न शक्नोति मनसा मस्तिष्कः तु पुनर्जन्मसमये केवलनूतनशरीरेण सह एव प्राप्तुं शक्यते यदि मनः मस्तिष्कं विना कार्यं कर्तुं शक्नोति स्म तर्हि मनः अग्रे गमनार्थं साधनाभ्यासं कर्तुं शक्नोति परमपुरुषेण सह संयोगं प्राप्तुं मृत्योः अनन्तरं परन्तु तथा नास्ति मस्तिष्कं विना मनः कदापि कार्यं कर्तुं न शक्नोति मनसः एतादृशस्य लक्षणस्य धर्मस्य कारणात् एव पुनर्जन्म स्वीकरणीयं भवति भूतानां सत्त्वं निराकृत्य केवलं काल्पनिकम् इति मन्तव्यम् अत्र पुनर्जन्मम् अवश्यं भवति येषां वृत्तं भवति तेषां पुनर्जन्म तु भवति कर्मफलम् अनुभवितुम् यद् कर्माणि कृतमस्ति मृत्योः पूर्वं जीवने तस्य फलं तु अनुभोक्तव्याः एव वयं पूर्वे अपि दृष्टवन्तः कर्मस्य फलं निश्चयेन भोक्तव्यम् अतः तेषां कृते पुनर्जन्मम् आवश्यकमेव यद् वयं पूर्वमपि दृष्टवन्तः मृत्यो इति युक्ते केवलं शरीरस्य एव न तु मनस वा आत्मनस्य अतः पुनर्जन्मं भूत्वा नूतनशरीरे पुनः सः मनः तादृशः यत्किमपि कर्मणि कृतम् अस्ति पूर्वजन्मनि तस्य फलम् अनुभवति वयं वदामः मनः शरीरं त्यक्त्वा मनः स्वतन्त्रतया तिष्ठुं शक्नोति वा किमपि कर्मफलम् अनुभोक्तुं शक्नोति वा तत्र उत्तरं दीयते न मनः तु कार्यं कर्तुं क्षमता यदा मस्तिष्कः तत्र न करोति मस्तिष्कः अस्ति कूलङ्गः तस्य कृते शरीरस्य आवश्यकता वर्तते अतः यदा वयं पठामः भूतः वा पिशाचः वा तादृशः जीवानि न भवन्ति इति अत्र किमर्थमित्युक्ते मनः स्वतन्त्रतया किमपि कार्यं कर्तुं न शक्नोति तस्य आधारः अस्ति मस्तिष्क अतः सः मनस्सस्य किमस्ति मस्तिष्क तदेव अस्ति यद् वयं वदामः भूतः वा पिशाचः वा अस्ति तत्सर्वं काल्पनिकम् इति चिन्तनीयं तदेव भगिनी आमां सम्यक् त्यक्तवती तदेव अस्ति इत्युक्ते जगति सर्वत्र एतादृशभ्रमः अस्ति भूतः प्रेतः अस्ति इति तु भ्रमः अस्ति भारते अपि ग्रामेषु वयं द्रष्टुं शक्नुमः खलु कश्चन भूतेन आवृतः अस्ति तदानीम् अन्य कोऽपि आगच्छति यः भूतस्य किं तु गेट्रेड् आफ़् दूतबाला तान्त्रिकाः भवन्ति हा तान्त्रिकाः हा सत्यं सत्यं ते वस्तुतः जनाः ये किमर्थम् एवं व्यवहरन्ति इति चेत् तेषां मानसिक रोगः वर्तते खलु मानसिकरोगः वर्तते इति कृत्वा ते तथा तथा व्यवहरन्ति परन्तु जनाः तथा तद् नावगच्छन्ति ते चिन्तयति त सः पुरुषः भूतेन आवृतः अस्ति इति इति कृत्वा भ्रमितः अस्ति अतः इदानीं भूतस्य वासः अस्ति भूतः तस्मात् बहिः तस्मात् पुरुषात् बहिः गन्तव्यः इति एतादृशं किमपि वदन्ति परन्तु एतत् सर्वं तु काल्पनिकः विषयः अस्ति वास्तविकः विषयः नास्ति तत्र तर्करीत्या विज्ञानरीत्या अपि तस्य समर्थनं नास्ति इत्युक्ते आध्यात्मिकविज्ञाने अपि एतादृश एतादृशविषयः नास्ति एतत् सर्वं तु काल्पनिकः विषयः अस्ति अन्यत् किमपि नास्ति मनः तु शरीरं विना किमपि सम्मोहनमन्त्रं तादृशं ते वशीकरणं कुर्वन्ति खलु तद् सर्वं भूतः न सर्वं तु केवलं हिक् नोटिस्व किमपि वक्तुं शक्यते खलु आमामां आम, सत्यं सत्यम् आमां आम। हा मनः तु शरीरं विन, विना कार्यं कर्तुं न शक्नोति मस्तिष्कः अपेक्षितः मस्तिष्कं विना कार्यं कर्तुं न शक्यते तर्हि तादृशशरीरं न लब्धं चेत् मनः प्रतीक्षां करोति मनः सूक्ष्म अवस्थायाम् अस्ति खलु कुत्र अस्ति इति वयं द्रष्टुं न शक्नुमः इदानीम् अहं वदामि कश्चित् कस्यचित् मनः मम पार्श्वे एव अस्ति अहं वदामि चेदपि वयं द्रष्टुं न शक्नुमः खलु सूक्ष्मावस्थायाम् अस्ति अतः कुत्र अस्ति कस्मिन् कुत्रचित् अस्ति परन्तु वयं द्रष्टुं न शक्नुमः ये मृताः तेषां मनः तेषां मनांसि कुत्र इति चेत् अत्र लोकेषु कुत्रचित् सन्ति परन्तु वयं तु न शक्नुमः यावत्पर्यन्तं नूतनशरीरं न लभ्यते यावत्पर्यन्तं मस्तिष्कः नास्ति तावत्पर्यन्तं मनसि मनसि यानि कर्मफलानि सन्ति तेषां भोगः अपि न शक्यते अतः भूतः प्रेतः इत्येतत् सर्वं न भवितुम् अर्हति कर्मफला फलानां भोगः मनसि तावत्पर्यन्तं न भवति यावत्पर्यन्तं नूतनशरीरं न लभ्यते इति अत्र विषयः अस्ति तर्हि इतोपि एकः लघु लघुः परिच्छेदः अस्ति तत्र सुचित न न किमस्ति सरिता भगिनी स्वीकरोति वाे जीवात्मन् जीवात्मा मनः च स्वस्य शारीरिकं शारीरिकम् आश्रयं त्यजतः इति कारणात् वस्ति मस्तिष्क अभाव मन अकार्यक सक मनुष्य मन अचेतनावस्थायाकार्यक मनस भौति आधार मस्तिष्क कालम यवत कार्यामती अचेतनावस्था केवल शंसा विषय विहाय अचेतनाव मृत्युः च द्वयमपि समान भवति अचेतन अवस्थायां मनः च परि परिसर परिसरस्य ज्ञानं त्यजाति किन्तु शरीरं न त्यजति जे मृत्यु अवस्थायाम् अर्थात् मृत्योः अनन्तरं अतीव ज्ञानम् अतीवदीर्घकालं पर्यम् अतीवदीर्घकालपर्यन्तं न भवति अतः अकार्यशीलं मनः शरीरं स्थायिरूपेण त्यजति अत्र अचेतनावस्था अपि च मृत्योः मध्ये किम् अन्तरम् इति दत्तमस्ति तत्र अचेतनावस्थायामपि मनः अकार्यशीलः भवति किमपि कार्यं कर्तुं न शक्नोति यतोहि मस्तिष्कस्य किमपि साहाय्यं न प्राप्नोति एवमेव एवा ता, किन्तु तत्रैव तिष्ठति तू क्षण अवस्था किन्तु किंतु मृत्यो दीर्घका मन किनो ये सहाय ना अंतर यहातनावस्था मस्तिष्क सहाय बिना मनम न शक्न तथे यहाँ शरीर त्यजती किमपि कर्तुं न शक्नोति यावत् नूतनं शरीरं न प्राप्नोति इति सम्यक् भगिनी इत्युक्ते मरणावस्था अपि च मूर्छावस्था अनयोः भेदः कः इति अत्र चर्चा क्रियमाणा अस्ति यदा कोऽपि मूर्च्छावस्थां प्राप्नोति इत्युक्ते तस्य किमपि शरीरे वैद्यरीत्या किमपि कार्यं कर्तव्यम् तदानीं तत्र मूर्छावस्थायां भवति सः पुरुषः तु जीवितः अस्ति तस्य मनः अपि वर्तते परन्तु किञ्चित् कालपर्यन्तं मनः कार्यं न करोति परन्तु तत्तु निरन्तरं नास्ति इत्युक्ते यावत्पर्यन्तं सः जीवति मनः कार्यं करोति यदा मूर्छावस्था गच्छति तदानीं तस्य मनः तु कार्यं कर्तुम् आरभते परन्तु यदा पुरुषः मृतः तदानीं तत्र तु मस्तिष्कः मृतः भवति इति कृत्वा मनः अपि कार्यं न करोति मनः शरीरं त्यजति इति अनयोः अवस्था अवस्थयोः भेदः अस्ति इति अवगन्तव्यम् अत्र अस्तु अत्र स्थगनं कुर्मः वा आं अस्तु अत्र स्थगनं कुर्मः कोपि प्रश्नः प्रश्नः अस्ति चेत् वदन्तु नो Uh, भगव भगवद्गीतायां लिखितमस्ति शिल्ले पुन्ये मत्ते लोकम विशन्ति एवमेव तत्र मनः किं कुत्रापि गच्छति तत्र तत्रापि किञ्चित् दिव्यं शरीरं प्राप्नोति अपि च तत्रापि पुण्यानां भोगः प्राप्तुमर्हति इति भवति अत्र तु योगद्वारा योग योगस्य आधारेण तथा नास्ति भगिनि योगस्य आधारेण तत्र स्वर्ग स्वर्गनरकविषये पृच्छति वा अथवा मनः कुत्र गच्छति इति विषये पृ पृच्छति वा कुत्रपि गच्छति तत्र किमपि देवलोके नूतनं दिव्यं शरीरं प्राप्नोति तत्र ये पुण्यकर्मणाः सन्ति तेषां फलं प्राप्नोति एवमेव इवा यदा पुण्यस्य समाप्ति भवति तदा पुनः मध्यलोकम् आगच्छति इति तथा अत्र अङ्गीकारः नास्ति भगिनि योगे तादृश अङ्गीकारः नास्ति अद्य अन्यलोके इत्युक्ते यत्र कुत्रचित् गच्छति तत्र शरीरं लभ्यते शरीरं प्राप्य कर्मफलानां भोगः भवति अत्र लोके इत्युक्ते मनुष्यः केवलम् अत्र अस्मिन् लोके एव सन्ति इति न यस्मिन् कस्मिन्नपि लोके मनुष्याः गच्छन्ति तत्र नूतनशरीरं ते प्राप्नुवन्ति अनन्तरं कर्मफलानां भोगः इत्युक्ते ह्यूमन् बीङ्ग्स् आर् देर् ओन्ल इन् दिस् यूनिवर्स् इन् दिस् लोका इट् इस् नाट् इट् इस् नाट् देट् दे कुड् बि इन् अदर् प्लानेट् आसो नाट् ओन्ल इन् दिस् प्लानेट् दे कुड् बि इन् अदर् प्लनेस् आल्सो वि डोण्ट् नो सम्यक् हा अस्मिन् विषये इतोपि किमपि अस्ति चेत् अहं पृष्ट्वा पृच् वदामि यावत् अहं जा जानामि मम ज्ञानं सीमितमेव तदाधारेण उक्तवती इतोपि अस्ति चेत् पृष्ट्वा वदामि ओके okay? अस्तु तर्हि धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः भवतां